मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायम् इलवन् पञ्चदेववरप्रधानम् श्रीगणेशाय नमः पार्वत्युवाच भगवन्देवदेवेश कृपां कृत्वा वदस्वमे मे वैराटेन कथं सृष्टं जगत्स्थावरजङ्गमम् अन्यच्च ब्रूहि मेनाध्यानमार्गं पुरातनं येन साक्षात्करिष्यामि गणेशं नात्र संशयः मुद्गल उवाच इति पृष्ठो महादेव्या महादेवः प्रहृष्टवान् कथां परमपुण्यां च कथयामासतां शृणु दक्ष उवाच गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते कथयस्वमहाभागशिवेन कथितं तु मुद्गल उवाच धन्योऽसि दक्षलोकेषु येन सादरता च ते गणेशे मृदधारायां कथायां नात्र संशयः प्रहृष्टां गिरिजां दृष्ट्वा शिवो वचनमब्रवीत धन्या धन्या महाभागे शृणु सादरमादिदः शिव उवाच गणेशं मनसा ध्यात्वा वैराडस्रष्टुमारभद तस्य नाभे समुत्पन्नो ब्रह्मा लोकपितामहः मुखाद्विष्णोर्जगत्पादा नेत्राच्चाहं हरो भवं सृष्टिस्थितिलया गुणधारकाः वामाङ्गाच्चक्रिरुत्पन्ना त्वं वै पार्वतिमोहिनी दक्षिणाङ्गा द्रविः साक्षात्कर्माधारसमाभवद पञ्चदेवासमुत्पन्ना भिन्ना जादास्वभावदः न विध किञ्चिदात्मानं वैराडं चापि शोभने अन्धेतमसि सर्वत्र बभ्रुमुर्बहुकालतः न किञ्चित्प्रापुराया सा स्थिताः परमदुःखिताः किं कर्तव्यम् क्व गन्तव्यमज्ञानेनावृता कस्माद्वयं समुत्पन्ना न जानीमो महाप्रभुम् अथ चिन्तयतां तेषां बुद्धिर्जादा सुनिश्चिता तपः कर्तुं समारब्धं यस्मै कस्मै नमोऽस्त्विति सर्वेषां मूलभूतं यद्यादृशं तादृशं खलु स्वधीस्थं तत्समाचिन्त्य तपस्तप्तं सुदारुणं तपसा गणनाथस्तु प्रसन्नोन्तरमाश्रितः तत्र दृष्टिसमुत्पन्ना वै भाविदात्मना हृदये बीजरूपं यस्फुरत्तदृष्टमद्भुतम् एकाक्षरं महां मन्त्रं प्राप्य हर्षमा तं हर्षमाययुः तं मन्त्रं जप मानैस्तैस्तदारभ्य जगन्मयि तेन मन्त्रप्रभावेण ज्ञानं प्राप्तं सुनिर्मलम् दिव्य वर्ष सहस्रेण प्रत्यक्ष समयत गणेशो भक्ति पुस्त समकोटिूर्य जाश्युंडादंड विराजि चुर्बाधरो लंबोदर साक्षा विभूषि भूषणैरायुधैश्चैव सिद्धिबुद्धिसमन्वितः भक्तानन्तकरश्रीमानाखुवाहो महाद्युदिः तं दृष्ट्वा भयभीदास्ते देवाः शम्भुपुरोगमाः किमिदं तेज आयादि आयादिप्रलयाग्निशमहत अस्मान् दक्ष्यति किं देवः विघ्नेशकरुणानिधे तव भक्ता स्वामिन स्वामिन्कथं विघ्नेन भाविताः यदि तेषां त्वभवत् सौम्यरूपवान् तं दृष्ट्वा कर्षिताः सर्वे प्रणेमोर्भावपूर्वकम् गणेशदर्शनेनैव स्फूर्तिः प्राप्ता महाद्भुधा तया सर्वे यथा तथ्यं ज्ञातं तैः पञ्चभिः पुरः ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः हृष्टरोमाण एवं ते पंचदेवा ऊचु नमस्ते विघ्नराजा भक्ता हिणे विघ्नकर्त हता गणेशा नमो नमहा। हे हेरंबा नमस्तुभ्यं दुराजा ते नम विनायकाय देवाय ब्रह्मणां नायकाय च लम्बोदराय सिद्धेश गजाननधराय च शूर्पकर्णाय गूढाय चतुर्हस्तनमोऽस्तु लंबोष्टाय लम्बोष्टायैकदन्ताय सर्वेशाय गणाधिप महिमाधार धरणी धरते नमः नमो मायामयायैव मायाहीनाय माया ते नमः मोहदाय नमस्तुभ्यं मोहहन्द्रे नमो नमः पञ्चभूतमयायैव पञ्चभूतधराय च इंद्रििया चाधिपाए्रकारिणे अध्यात्मने ददवाय नम अयान्न पदे तोभ्यम नमो नम प्राण प्राणना प्राणू चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने विज्ञानाय च विज्ञानपदये द्वन्द्वधारिणे विज्ञानेभ्य ते नमो नमः आनन्दाय नमस्तुभ्यमानन्दपदये नमः आनन्दानन्ददात्रे च णाय नमो नमः चैतन्याय च यत्नाय चेतनाधारिणे नमः चैतन्येभ्यस्वचैतन्यदायिने नादरूपिणे बिन्दुमात्राय बिन्दूनां पदये प्राकृताय च भेदाभेदमयायैव ज्योतिरूपाय ते नमः सोकं मात्राय शून्याय शून्या धाराय देहिने शून्यानां शून्यरूपाय पुरुषाय नमो नमः ज्ञानाय बोधनाधाय बोधानां बोधना बोधकारिणे मनोवाणीविहीनाय सर्वात्मकनमो नमः विदेहाय नमस्तुभ्यं विदेहाधारकाय च विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः नानाभेदधरायैव चैकानेकादिमूर्तये असत्स्वान शक्तिये नम अमृताय सदा खंडभेदेद सत्या सत्य विहीनाय सत्यानाय सवानमूर्त आनन्तानन्तकन्ताय विष्णवेते नमो नमः अव्यक्ताय परेशाय नेदिनेधि मायाय च शिवाय शाश्वतायैव मोहहीनाय ते नमः संयोगेन च सर्वत्र समाधौरूपधारिणे स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे मायाहीनाय देवाय नमस्ते ह्यः समाधये शान्दिदाय नमस्तुभ्यं पूर्ण शान्तिप्रदायते योगानां पदये चैव योगरूपाय ते नमः गणेशाय परेशाय स्यपारगुणकीर्तये योगशान्तिप्रदात्रे च महायोगाय ते नमः गुणान्तं नयुर्यस्य वेदाद्या वेदकारकाः न कस्य स्तवनी यस्याद्यथामति तथा स्तुतः तेन वै भगवान् साक्षा चिन्तामणिगजाननः प्रसन्नो भवदुत्रादास्मागम् त्वम् परमागतिः इत्येवमुक्त्वा देवे शास्तूष्णीम् गणेशोन्ना सन्त्युवाच त्रीगणेशवाच पंचदे महाभागा प्रसन्नोद तपसा ता चाभग्रिया वाद ब्रूद वै वरम स्तोत्रं स्त्रो परमादवर्धन मम प्रीतिकरं भक्र्या सर्वदं प्रभविष्यति यः पठेद् भावपूर्वं स धर्मकामार्थमोक्षभाक पुत्रपौत्रयुधश्रीमानन्दे स्वानन्दमाप्नुयाद सप्तवारं पठे नित्यमेकविंशदिवासरम् कारागृहगतो वापि मुच्यते बन्धनात् स्वयम् एककालं द्विकालं वा त्रिकालमपि यः पठेत् स वै देवादिकैर्वन्द्यो भविष्यदि न संशयः मारणोच्चाटनादिभ्य वारतः तावदिनानि पाठेन तस्य नैव भयं भवेद धनधान्यादिकं सर्वमारोग्यं पशुवर्धनं यं यं चिन्तयदे कामं तं तं प्राप्नोति निश्चितं शिव उवाच गणेशवचनं श्रुत्वा हृष्टा विष्णवादयसुराः प्रणिपत्यगणाधीशं पुडा जलिपुड़ा जगु पंचदे ऊचु सनाथि वैम जाय्या प्रभो वरम देणाधीश तव भक्ति दृढ़ा तथा तेनाबाधेत नरानी प्रभो किमस्माभिः प्रकर्तव्यं तदाज्ञापय सर्वदा सामर्थ्यं विविधं देहि भजदां कामपूरणं स्थानं सदानन्दनामदेहिनाथ नमोऽस्तु ते गणेश उवाच चतुर्मुखमहाबाहो रजो गुणसमुद्भव सृष्टिकर्ता भवत्वं वै ब्रह्मानाम्ना महाद्युते सत्यलोकनिवासीदु हंसवाहनवान्भव वेदादिज्ञानयुक्तश्च सर्वेषां त्वं पिधामहः चतुर्भुजोऽसि देवेश त्वं वै सत्त्वसमुद्भवः पालकः सर्वलोकानां विष्णुनामा भविष्यसि वैकुण्ठे वसतिस्ते स्याद्वाहनं गरुडस्तव नानावतारवांश्चापि भविष्यसि महाबलः पञ्चवक्त्रमहातेजस्तमो गुणसमुद्भव संहारकारको नित्यं हरनामा भविष्यसि कैलासे वसतिस्थेस्तु वाहनं वृषभस्तथा तृतीयेन स्वनेत्रेण सर्वं भस्मीकरिष्यसि सहस्रकिरणत्वं वै सूर्यनामा भविष्यसि चालकत्वात् जादोसि चालकवात्षृ धर्मकाशकुण जाद्री प्रकाशक ते वाहनमे सौरलोके सौरलोक निवासग्रहराजो भविष्य मूलं वृष्टिमूलं त्वमेवासि तेजोराशिः प्रदाभवान् प्रदापवान। चदुर्भुजे त्वं जादासि त्रिदेहदः नानाविषयभोगार्थं सदेहा मोहकारिणी शक्तिनाम्नी महा माया भविष्यसि न संशयः द्विधा मोहप्रदातृत्वं भुक्ति मुक्तिभ्रमान्तिका सिंहवाहनवानित्यं शक्तिलोकनिवासिनी नानाभोगविमोहेन जगत्त्वं मोहयिष्यसि महाकाव्ये समुत्पन्ने प्रत्यक्षोहं भवामि मत्तुल्याः सर्वभावेन कृता देवान संशयः आयुधम् भूषणं श्रेष्ठं नानासामर्थ्यमद्भुतं सङ्कल्पसिद्धतां चैव ददौ तेभ्यो गणाधिपः शिव उवाच इति दत्त्वा वरान् देवो गणेशों तर्दधेष्वयं तेपि हृष्टा निजात्मानं कृतकृत्यं च मे निरे भजतां भक्तिभावेन कामपूजा कृता वयं परमेश्वरदां प्राप्ता प्रसादाद्गणपस्य च ॐ तत्सदिति श्रीमदान्द्ये उद्गले महापुराणे प्रथमे खंडे वक्र तोचरीते पंचदेवर प्रधानमं नामशोध्याय